अथ षट्षष्टितमः सर्गः एवमुक्तो हनुमता रामो दशरथात्मजः तम् मणिम् हृदये कृत्वा रुरोदसः लक्ष्मणः तम् तु दृष्ट्वा मनिःश्रेष्ठम् राघवः शोककर्षितः नेत्राभ्यामश्रुपूर्णाभ्याम् सुग्रीवमिदमब्रवीत् यथैव धेनुः स्रवति स्नेहाद्वत्सस्य तथा ममापि हृदयम् मणिः श्रेष्ठस्य दर्शनात् मणिरर्थमिदम् दत्तम् वैदेह्याश्वशुरेण वधूकाले यथा बद्धमधिकम् मूर्ध्नि शोभते अयम् हि जलसम्भूतो मणिः प्रवरपूजितः यज्ञे परमतुष्टेन दत्तः धीमता इमम् दृष्ट्वा मणिःश्रेष्ठम् तथा तातस्य दर्शनम् अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः अयम् हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः अद्यास्य दर्शनेनाहम् प्राप्ताम् तामिव चिन्तये किमाहसीता वैदेही ब्रूहि सौम्य पुनः पुनः परा सुमिवतो येन इतस्तु किम् दुःखतरम् यदि मम वारिसम्भवम् मणिम् पश्यामि सौमित्रे वैदेही वैदेहीमागताम् विना चिरम् जीवति वैदेही यदि मासम् धरिष्यति क्षणम् वीरण जीवेयम् विना तामसिते क्षणाम् नय मामपि तम् देशम् यत्र दृष्टा मम प्रिया न तिष्ठेयम् क्षणमपि तदा भयावहानाम् घोराणाम् मध्ये तिष्ठति रक्षसा शारदस्तिमिरोन्मुक्तो मुक्तो नूनं इवाम्बुदैः आवृतो वदनम् तस्या न विराजति साम्प्रतम् किमाह सीता हनुमंस्तत्वतः कथयस्व मे एतेन खलु जीविष्ये भेषजेनातुरो यथा मधुरा मधुरा लापा किमाह मम भामिनी मद्विहीनावरारोहा हनुमन्कथयस्व मे दुःखाद्दुःखतरम् प्राप्य कथम् जीवति जानकी इत्यादे श्रीमद् वाल्मीकिये आदिकाव्ये सुन्दरकाण्डे षट्षष्टितमः